ऋग्वेदमण्डलं नैन् पायिण्ट् थर्टीन् सोमः पुनानो अर्षदि सहस्रधारो अत्यविः पायोरिन्द्रस्य निष्कृदं पवमानमवस्य वो विप्रमभिप्रगायत वीतये पवन्ते वाजसादये सोमा सहस्रपादसः गृणाना देववीतये उतनो नो वाजसादये पवस्व बृहदीरिषः द्युमदिन्दो सुवीर्यम् तेन सहस्रिणं रयिम् पवन्तामा सुवीर्यं सुवानादेवास इन्तवः अत्या हियनान हे दृभिरशृग्रं वाजसादये विवारमव्यमाशवः वास्रा अर्षन्दिन्दवोऽभिवत् सन्न धेनवः दधन्विरे गभस्थ्योः जुष्ट इन्द्रायमत्सरः पवमानकनिप्रदद विश्वा अपद्विषो जहि अबघ्नन्तो अरावुण योनावृतस्य सीदधा ऋग्वेदमण्डलम् नैन् पायिण्ट् फोर्टीन् परिप्राशिष्य दत्कविः सिन्धो कारं बिभ्रत्पुरुस्पृहम् गिरा यदि अपश्यवः परिष्कृण्वन्ति धर्मसिम् आदस्य सुष्मिनो रसे विश्वे देवा आमत्सदा यदि गोभिर्वसायते निरीणानो विधावदि जहश्चर्याणि तान्वा अत्रा सञ्जिघ्नदे युजा नप्तिभिर्यो विवस्वदशुभ्रो न मा मृजे युवा घा कृवानो न निर्निजम् अधिश्रुदि धीरश्च गव्या ग्नोमि यर्ति यं विदे अभिक्षिप समक्मदमर्जयन्ती ऋषस्पतिम् पृष्टा गृह्णदवाजिनः परि दिव्यानि मर्मृषद्विश्वानि सोमपार्थिवसूनि याह्य स्मयुः ऋग्वेदमण्डलं नैन् पायिण्ट् फिफ़्टीन् एष धिया यात्यन्व्याशोरो रथेभिराशुभिः गच्छन्निन्द्रस्य निष्कृदं एष पुरो धियायदे बृहदे देवतातये यत्रामृतास आसदे एष हि दो विनीयतेन्दशुभ्रवदापधा यदि तुञ्जन्ति भूर्णयः एष श्रृङ्गानि दोधो वक्षिषीदे योध्यो ओ, ओ वृषा नृम्णादधान ओजसा ेष रुक्मभिीयदेवाजी शुभ्रेभिरंशुभिः पदि सिन्धूनां भवन् येष पिबना परुषाय इवामधि अवशादेषु गच्छदि दं मृजन्ति मद्यमुपद्रोणेष्वायवः प्रचक्राणं महीरिषः येदमुत्यन्दशक्षिपो मृजन्ति सप्तधीदयः स्वायुधं मदिन्दमम् ऋग्वेदमण्डलं नैन् प्रते सोतार ओण्यो ओरसं मदाय हृष्वये सर्गो न तथ्येतसः क्रत्वा दक्षस्य रध्यमपो वसानमन्धसा गोषामन्वेषु सस् अनप्तमप्सु दुष्टरं सोमं पवित्र आसृज पुनीकीन्द्राय पादवे प्रपुनानस्य च दसा पवित्रे अरिषदि क्रत्वा सधस्तमासद प्रत्वा नमो इन्द्र सोमा असृक्षद महे भरायकारिणः पुना न रूपे अव्यये विश्वा अर्षन्नभिश्रियः शूरो न गोषु तिष्ठति दिवो न सानो धारा सुदस्या वेधसः स्पृधा पवित्रे अर्षदि त्वं सोम विपश्चिदन्तना पुनान आयुषु अव्यो वारं विधावसि ऋग्वेदमण्डलं नैन् 9.17 प्रनिम्नेनेव सिन्धवोघ्नन्तो वृत्राणि भूर्नायः सोमा अश्रुग्रमाशवः वा अभिसोवानास इन्दवो वृष्टयः पृथिवीमीव इन्द्रं सोमासो अक्षरन्न अत्योर्मत्सरो मदस्सो मः पवित्रे अर्षदि विघ्नन्द्रक्षांसि देवयुः आकलशेषु धावधि पवित्रे परीषिच्यधे ैर्यज्ञेषु वर्धते अदित्री सोमरोचना रोहन्नभ्राजसे दिवम् युष्मन् सूर्यन्न चोदयः अभिविप्रा अनुषदमूर्धन्यज्ञस्य कारवः। दधानाश्चक्षसि प्रियं तमुत्वा वाजिनरोधिभिर्विप्रा अवस्यवः मृजन्दी देवतातये मधोर्धारा मनुक्षरतिव्रसधस्तमासदः चारुर् ृताय पीतये ऋग्वेदमण्डलम् नैन् पायिण्ट् एय्टीन् परिसुवानो गिरिष्ठा पवित्रे सोमो अक्षाह मदेशु सर्वधा असि त्वं विप्रस्त्वं कविर्मधुप्रजातमन्थसः मदेशु सर्वधा असि तव विश्वे सजोषसो देवा पि दिमाशद मदेषु सर्वधा असि आ यो विश्वानि भार्या वसूनिहस्थायोर्दधे मदेशु मदेशुर् यइसी मही संदर दोहदे मदेशुर्वध उद्यो वाजेषि मदेशुर्सी सचुष्मि कलशेश्वपुनानो आचिक्रददमदेषु सर्वधा असि ऋग्वेदमण्डलं नैन् पायिण्ट् नैन्टीन् यत्सोमचित्रमुध्यन् दिव्यं पार्थिवौ युवं हिष्टस्वर्पदि इन्द्रश्च सोमगोपदि ईशाना पीप्यदं धियः वृषा पुनान आयुषुस्तनयन्नधि बर्हिषि हरिः सन्योनिमासदद अवा वृषभस्याधि रेदसि सूनोर्वत्सस्य मादरः कुविद्वृषण्यन्देभ्यः पुनानो गर्भमादधद य शुक्रन्दुपदे उपशिक्षापदस्तुषोभियसमाधेः शत्रुषु पवमानविदारयिं निशत्रो सोमवृष्ण्यन्नि शुष्मणि वयस्थिर दूरे वा सदो अन्दी वा ऋग्वेदमण्डलं नैन् पायिण्ट् ट्वेण्टि प्रकविर्देववीदयेव्यो वारेभिरर्षदि सह्वान्विश्वा अभिस्पृधः सहिष्मा जतृभ्य आवाजं गोमन्द मिन्वति पवमानसहस्रृणम् परिविश्वानि चतसा मृशसे पवसेमती सनसो मश्रवो विदः अभ्यर्ष बृहद्यशो मखवद्भ्यो ध्रुवमृिं जिशं स्तोदृभ्य आभर ं राजेव सुव्रदो गिरसोमाविवेशिध पुनानो वहने अद्भुत स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः सोमश्चमूषु सीदधि कृळीरोर्मखो नमं हयोः पवित्रम् सोमगच्छसि दधस्तोत्रे सुवीर्यम् ऋग्वेदमण्डलम् नैन् पायिण्ट् ट्वेण्टि वन् ये इन्द्राय कृष्वायः मत्सरासस्वर्विदः प्रवृण्वन्दो अभियुजस्वष्वाये वरिवो विदः स्वयं स्तोत्रे वायस्कृतः वृद्धा क्रीलन्त सिन्धोरूर्मा व्यक्षरन् ये ते विश्वानिवार्या पवमानास आशद हिता न सप्तयो रथे अस्मिन् पिशङ्गमिन्दवो दधा दावेन यो अस्मभ्यमरा वा ऋभुर्नरध्यन्नवन्तधाता केदमादिशे शुक्राः पध्वमर्नसा ये वाजिनो अक्रत स प्रासा ऋग्वेदमण्डलं नैन् पायिण्ट् ट्वेण्टि टु ये दे सोमास आशवो रधा इव प्रवाजिनः सर्गा शिष्ठा आहेशद ये देवादा िवो प्रवः पर्जन्यस्येव वृष्टयः अग्नेरीवभ्रमा वृधा ये दे पुदा विपश्चिदसोमासो दध्या शिरः विपाव्यान ये दे मृष्टा अमर्त्या ससृवांसो न शश्रमुः इयक्षन्धः पदो रजः ये दे पृष्ठनिरोधसोऽर्भिप्रयन्दो व्यानसुः उदेदमुत्तमं आशद उदेदमुत्तमायम् त्वं सोम पणिभ्य आ वसुगव्यानि धारयः तन्तोमजिक्रदः ऋग्वेदमण्डलं नैन् पाय्ण्ट् ट्वेण्टि त्रि सोमा असृग्रमाशवो मधोर्मदस्य धारया, मा मा धारया। अभिविश्वानि काव्या अनुप्रत्नास आयवः पदं नवीयो अक्रमुः ऋचेजानन्दसूर्यम् आ पवमाननो भरार्यो अदाशुषो गयम् गृधि प्रजावतीरिषः अभि आयवः पवन्ते मद्यम् मदम् अभिकोशम् मधुश्च्युदम् सोमो अर्षदिधर्म शिर्दधान इन्द्रियं रसं। सुवीरो अभिषस्तिपाः इन्द्राय सोमपवसे देवेभ्यः सदमाद्यः इन्दो वाजं शिशाससि अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रदि जखान जखानच्चनु ऋग्वेदमण्डलम् नैन् पायिण्ट् ट्वेण्टि फोर् प्रसोमासो अधन्विषु पवमानास इन्दवः श्रे नाना अप्सु मृञ्जद अभिगावो गावो अधन्विषु रापो न प्रवदा यदि हि पुना इन्द्रमाश्यद प्रपवमानधन्वसि सोमेन्द्राय पादवे नृभिर्यदो विनीयसे त्वं सोम नृमादा नः पवस्वचर्षणी सहे स स्नेर्यो इन्दो यद्रिभिः सुधः परिधावसि अरमिन्द्रस्य धाम्ने पवस्ववृत्रहन्द मोग्धेभिरनुमाद्यः शुचिः पावको अद्भुतः शुचिः पावक उच्यते सोमसुतस्य मध्वः देव वीरखशंसः ऋग्वेदमण्डलं नैन् पायिण्ट् ट्वेण्टि पवस्वदक्षसाधनो देवेभ्यः पीतये हरे मरुद्भ्यो वायवे मदः पवमानधियाहितोकनिक्रददवा वायुमाविश सन्ते वैशोभदे वृषा कभिर्यो न वधि प्रियः पुत्रः देववीतमः विशन्पुनानो यादिहर्यदः यत्रा मृता स असदे अरुषो जनयन् गिरसोमःपवद आयुषक इन्द्रं गच्छन् कविक्रदुः आपवस्वमदिन्दमपवित्रन् धारया कवे अर्कस्य यो निमासदम् ऋग्वेदमण्डलं नैन् मृक्षन्दवाजिनमुपस्थे अदिरेरधि विप्रासो अन्व्या धिया तं गावो अभ्यनोषदसहस्रधारमक्षिदम् इन्दुन् धर्तारमादिवः संवेधा मेधया ह्यन्पवमान मधिद्यवि धर्नसिं भूरिधायसम् तमस्यन् भुरिजोर्धिया संवसानं विवस्वदः पदिं वाचो अदाभ्यं तं सानावधि जामयो हरिं हिन्वन्ति यद्रीभिः हर्यदं भूरि चक्षसम् अन्त्वा हिन्वन्दिभेधसः पवमानविरावृधम् इन्द्रविन्द्राय मत्सरम् ऋग्वेदमण्डलं नैन् पायिण्ट् 9.27 सेवेन् येष दप पवित्रे अधितोषते पुनानो घ्नन्नपश्रुधः येष इन्द्राय पवित्रे दक्षसाधनः येषभिर्विनीयते दिवो मूर्धा वृषात्सुतः सोम वनेषु विश्ववद गव्युरा गव्युराचिक्रदत्पवमानो हिरण्ययुः इन्दुःसत्राज्जिदस्तृदः एष सूर्येणः सदे पवमानो अदिद्यवि पवित्रे मत्सरो मदः एष शुष्म्य शिष्यददन्तरिक्षे वृषा हरिः पुनान इन्दुरिन्द्रमा ऋग्वेदमण्डलं 9.28 पाय्ण्ट् ट्वेण्टि ऐट् येषवाजी हितो अव्योवारं विधावति येषपवित्रे पवित्रे अक्षरत्सोमो देवेभ्यः सुतः विश्वाधामान्या विशन् एष देव शोभाय ते पुत्रः देववीतमः एष वृषा कनिक्रदत् दशभेर्जामि दशभिर्जामिभिर्यतः अभिद्रोणानि धावधि एष सूर्यं मरोचयत्पवमानो विचर्षणिः विश्वा विश्वविद एष शुष्म्यदाभ्यसो अर्षदि देवा वीरधशंसः ऋग्वेदमण्डलं नैन् पाय्ण्ट् ट्वेण्टी नैन् प्रास्यधारा अक्षरन् वृषणः सुतस्यौजसा देवा अनुप्रभूषदः शक्तिं मृजन्दि वेधसो गृह्णन्थकारवो गिरा ज्योतिर्जज्ञानमुग्ध्यम् सुषः सोमतानी ते प्रभो वसो वर्धा समुद्रमुग्ध्यं विश्वा वसूनि सञ्जयन् पवस्व सोमधारय यिनु द्वे शांसि सध्र्यग्रक्षात्सु निदो अररुषस्वनात्समस्य कस्यचिदनिधो यत्र मुमुद्महे येन्धो पार्थिवं रयन् दिव्यम्पवस्वधारया द्युमन्दं शुष्मा मा भार ऋग्वेदमण्डलं प्रधारा अस्य शुष्मिणो वृधा पवित्रे अक्षरन् पुनानो वाचमिष्यति इन्दुर्ह्यनः सोदृभिर्मृज्यमानः कनिक्रदद इयर्ति वग्नुमिन्द्रियम् आनश्युष्मन्नृषाख्यं वीरवन्दं पुरुःस्पृशं पवस्व प्रसोमो अधिधारय पवमानो अशिष्य दद अभिद्रोणान्या अप्सुत्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः इन्दविन्द्राय पीतये सुनोता मधुमत्समं सोममिन्द्राय वज्रिणे चारुं शर्धाय मत्सरम् ऋग्वेदमण्डलं नैन् पायिण्ट् तर्टि वन् प्रसोमासस्वाध्या पवमानासो रयिं कृण्वन्ति चेतनं दिवः पृथिव्या अधिभवेन्दोद्युम्नवर्धनः भवा तुभ्यं वादा अभिप्रियस्तुभ्यमर्शन्ति सिन्धवः सोम वर्धन्ति ते महः आप्याह्यस्वसमेतु ते विश्वतः सोम भवा वाजस्य सङ्गधे तुभ्यङ्गावो घृदम् पयो बभ्रो दुदुह्रे अक्षीतम् वर्षिष्ठे अधिसानी स्वायुधस्यदे सदो भुवनस्य पदे वयम् इन्दो सखित्वमुश्मसि ऋग्वेदमण्डलं नैन् पाय्ण्ट् तर्टि प्रसोमासो मदच्युदश्रवसेनो मखो नः विदधे अक्रमुः आदीन्त्रितस्य योष नो परिं इन्वन्द्यद्रीभिः इन्दुमिन्द्राय पीतये आदीं, आदीं हंसो यथा गणं विश्वस्यावि वस॒न्मदिम् अत्यो न गोभिरज्यदे उभे सो मा वशाकशन्मृगो न तो अर्षसि सीदन् नृतस्य योनिमा अभि अनुषदह्योषा जारमीव प्रियम् अगह्ना जय्यधा इदम् अस्मे देहिद्युमध्यशो मखवद्भ्यश्च मह्यं च सनिमेधा मुदश्रवः ऋग्वेदमण्डलं नैन् प्रसोमासो विपश्चिदोपान्नयन्त्यूर्मयः वनानि महिषा इव अभिद्रोणानि बभ्रवशुप्रा ऋतस्य धारय वाजङ्गोमन्तमक्षरन् सुता इन्द्राय वरुणाय मरुभ्याह सोमा अर्षन्ति विष्णवे तिस्रोवाच उदीरदे गावो मिमन्ति धेनवः हरिरेदि क्यनिक्रदद अभिब्रह्मीरनुषदयक्विहृतस्य मादरः मर्मृद्यन्ते दिवशिशुं रायसमुद्रां च दुरोऽस्मभ्यं सोमविश्वतः आपवस्व सहस्रणः ऋग्वेदमण्डलं नैन् पायिण्ट् तर्टि फ़ोर् प्रसुवानो धारयातनेन्दुर्हिन्वानो अर्षदि रुजदृहाव्योजसा सुत इन्द्राय वायवे वरुणाय मरुभ्यः सोमो अर्षदि विष्णवे ऋग्वेदमण्डलम् नैन् पाय्ण्ट् तर्टि फैव् आनपवस्वधारय पवमानरयिं पृधुं यया ज्यो दुर्विदासिनः इन्दो समुद्र विश्वमेजय रायो धर्ता न ओजसा त्वया वीरेण वीरवोभिष्याम पृतन्यदः क्षराणो अभिवार्यं प्रवाचमिन्दुरिष्यदिशिशासन्वा जसा ऋषिः प्रदा विदान अयुद्धा सङ्गीर्भिर्वाच मिङ्घयं पुनानां वासयामसि सोमञ्जनस्य गोपतिं विश्वो यस्य व्रदे जनोदाधार धर्माणस्पदेः पुनानस्य प्रभुवसोः ऋग्वेदमण्डलं नैन् पाय्ण्ट् असर्जिरभ्यो यथा पवित्रे सुतः कास्मन्वाजिन्यत्क्रमीद स वह्निः सोमजागृवि भवस्वदेववीरति अभिकोशं मधुश्च्युतं स नो ज्योदिंषि व्यपवमानविरोचय क्रत्वे दक्षायनो हि नो शुम्भमान हृदायुभिर्मृज्यमानो गभस्त्योः पवते वारे अव्यये स दाशुषे वसु सोमो दिव्यानि पार्थिवा पवता मान्तरिक्षा हा दिवस्पृष्टमश्वयुर्गव्ययुः सोमरोहसि वीरयुष वसस्पते ऋग्वेदमण्डलं नैन् पाय्ण्ट् थर्टि सेवेन् ससुदः पीदये वृषा सोमः पवित्रे अर्षदि विघ्नरक्षांसि देवयुः स पवित्रे विचक्षणो हरिरर्षदि धर्मसिः पवमानो विधावधि रक्षोहा वारमव्ययम् सत्रि सानवी पवमानो अरोचयद जामिभि सूर्यं सः स वृषा सुतो वारिवो विददाभ्यः सोम वाजमिवासरद स देवः कविनेक्षितो भिद्रोणानि धावति इन्दुरिन्द्राय मम्हना ऋग्वेदमण्डलं 9.38 पाय्ण्ट् थर्टि एय्ट् येष उस्य वृषा रथोऽव्यो वारेभिरर्षदि गच्छन्वाजं सहसृणं ये दन्तृतस्य योषणो हरिं हिन्वन्त्यद्रीभिः इन्दुमिन्द्राय पीतये ये, ये दन्त्यम् हरिदोदशमर्मृज्यन्ते अपस्युवः याभिर्मदाय शुम्भते एषस्य मानुषि स्वास्यो न विक्षुषि दधि गच्छन् जारो न योषितम् एषस्य रसो वाचष्ठे दिवशिशोः य इन्दुर्वारमावीषद येषस्य पीतये सुदो हरिरर्षदि धर्मसि हि क्रन्दन्यानीमभिप्रियम् ऋग्वेदमण्डलं नैन् आशुरर्ष बृहन्मदे यत्रदेवा धाम्ना यत्र देवा इति ब्रवन् परिष्कृन् निष्कृदञ्जनाय सुतयेदि पवित्र आत्विषि दधान ओजसा विचक्षानो विरोचयन्न विरोचयन् अयं स यो पवित्र आ सिन्धो रुर्माव्यक्षरद आविवासन्परा वदो अधो अर्वावदसुतः इन्द्राय सिच्यदे मधो समीचीना अनौषद हरिं हिन्वन्त्यद्रिभिः यो नावृतस्य सीदथ ऋग्वेदमण्डलं 9.40 पुनानो अक्रमेदभि विश्वा मृधो विचर्षणिः शुम्भन्ति विप्रन्धीतिभिः आयोनि मरुणो रोहद्गमधिन्द्रं वृषा सुतः ध्रुवे सदसि सीदधि नूनो रयुम् महामिन्दोऽस्मभ्यं सोम विश्वदः आपवस्व सहसृणम् विश्वा सोम पवमानद्युम्नानीन्दव भर स नः पुनान आभरयिं स्तोत्रे सुवीर्यं जरितुर्वर्धया गिरः पुनान इन्दवाभर सोमद्विबर्हसं रयिं पृषन्निन्दो न ऋग्वेदमण्डलं नैन् 9.41 फोर्टि प्रये गावो न भोर्नयस्त्वेषा अयासो अक्रमुः ग्रन्थकृष्णामपत्वचम् सुवितस्य मनामखेदिषेदुन् दुरव्यं दुराव्यं। वां दस्योमव्रदम् शृण्वे वृष्टेरिवस्वनः पवमानस्य सुष्मिणः चरन्ति विद्युदो दिवि आपवस्वमहीमिष गोमादिन्दो हिरण्यवद अश्वा वद्वाज वत् तः सपवस्वविचर्षण आमही रोदसीपृण पुषा सूर्यो नरश्मिभिः परिणः शर्मयन्त्या धारया सोमविश्वदः सरा रसेवविष्टपम् ऋग्वेदमण्डलं नैन् 9.42 फ़ोर्टि जनयन् रोचना दिवो जनयन्नप्सु सूर्यं वसानो गा अपो हरिः जेषप्रत्नेन मन्माना देवो देवेभ्यस्परी धारया पवदे सुतः वावृधानाय धूर्वाये पवन्ते वाजसातये सोमा सहस्रपाचसः दुहा नः प्रत्नमित्पयः पवित्रे परीक्षिच्यते क्रन्दन् आजी जनद अभिविश्वानि वार्याभिदेवादावृधः सोमः पुनानो अर्षदि गोमन्नः सोम वीरवदश्वा वद्वाज वत्सुतः पवस्व बृहदीरिशः ऋग्वेदमण्डलं 9.43 पाय्ण्ट् फ़ोर्टि त्रि यो अत्या इव मृज्यते गोभिर्मदाय हर्यतः तं गीर्भिर्वासयामसि तन्नो विश्वा अवस्युवो गिरशुम्भन्ति पूर्वधा इन्दुमिन्द्रायपीतये पुना नो यादि हर्यदः सोमो गीर्भिः परिष्कृतः विप्रस्य मेध्यातिधेः पवमानविदार इमस्मभ्यं सोम इन्दो सहस्रवर्चसं इन्दुरत्यो न वाज श्रुकनिक्रन्दि पवित्र आ यदक्षा हृदि देवयुः पवस्व वाजसदये विप्रस्य गृणदो वृधे सोमरास्व सुवीर्यम्